अरवत्या दशकम् रासक्रीडै रेण्ड् उभयादानाम् सुदृशाम् कुसुमायुधबाणपादविवशाना अभिवाञ्चितम् विधातुम् कृतमतिरपिता जगात वाममिव गगनगतं मुनिनिवहम् शाबयितुं जगितकुलवधूधर्मम् धर्म्यम् कलुते वचनम् कर्म तु नो निर्मलस्य विस्वास्यं। आकर्ण्येते प्रतीपाम् वाणी एणीदृशपरम् दीना मामा करुणा सिन्धो परिद्यजयित्य दिशिरम् बिले पुस्थ तासाम् रुदितैर्लभितै करुणाकुल मानसो मुरारे ताभिस्समं प्रवृद्धो यमुना पुलिनेषु काममभिरन्तुम् चन्द्रकरस्यन्दलसत् सुन्दर यमुना तटान्तवीतीक्षो गोपीजनोत्तरीयै रापदातित संस्तरो न्यषीदस्त्वम् सुमधुरनर्मलापनैकर शङ्कर हणैश्च सुम्बनोल्लासे गाढालिङ्गनसङ्गैस्त्वम् अङ्गना वासो हरणदिने रणम् प्रतिश्रुतम् दासा तदपि विभोरस विवश स्वान्तानाम् कान्तशुभ्रूवमामददा कन्दलितधर्मलेशम् कुन्दमृतो स्मरे वक्त्रपादोझम् नन्दः सुत त्वाम् त्रिजघ विरहेष्वङ्गारमय श्रृङ्गारमयश्च सङ्गमेहि त्वम् नितारामङ्गारमय तत्र पुनः शङ्कमे राधा तुङ्गपयोदरसाधु परीरम्बलो लुपात्मानम् आराधये भवन्तम् पवन पुरारीश समय सकलगतान् भज गोपाल प्यारी भुरारी नन्दलाल